योगसिद्धाय नमः ॐ योगक्षेमधात्रे नमः ॐ योगक्षेमङ्कराय नमः ॐ योगक्षेमधुरन्तराय नमः ॐ योगधात्रे नमः ॐ योगसङ्ग्रहाय नमः ॐ योगमार्गप्रदार्शकाय नमः ॐ योगसिद्धाय नमः ॐ योगप्रियाय नमः ॐ योगकराय नमः ॐ योगध्यक्षाय नमः ॐ योगमूर्तिधराय नमः ॐ योगसनाराध्याय नमः ॐ योगांघाय नमः ॐ योगध्यानपरायणाय नमः ॐ योग्याय नमः ॐ योगनायकाय नमः ॐ योगम्याय नमः ॐ योगवथे नमः ॐ योगपट्टधराय नमः ॐ योगबीजाय नमः ॐ योगनिधये नमः ॐ योगविधे नमः ॐ योगविधांनेत्रे नमः ॐ योगपुंगवाय नमः ॐ योगवैद्याय नमः ॐ योगिसिंहकृदाश्रिताय नमः योगिने नमः ॐ योगिध्यानान्तगम्याय नमः ॐ योगिनां गणसेविताय नमः ॐ योगिनां पतये नमः ॐ योगिममः सरोजधालसंसारक्षमाय नमः योगिह्युत्पद्मवासिने नमः ॐ योगिनां गुरवे नमः ॐ योगिनां पतये नमः ॐ योगिनां कृतिष्याय नमः ॐ योगिध्येयाय नमः ॐ योगिहत्पङ्गजालयाय नमः ॐ योगिपूज्याय नमः ॐ योगिनामनन्ताय नमः ॐ योगिनामधेयाय नमः ॐ योगिनां शम्भवे नमः ॐ योगीशाय नमः ॐ योगीश्वराय नमः ॐ योगीश्वरालयाय नमः ॐ योगीन्द्रसंस्तुतपधाय नमः ॐ योगीश्वरेश्वराय नमः ॐ योगेशाय नमः ॐ योगेश्वराय नमः ॐ याच्ञारूपाय नमः ॐ याधाकार्तिनिषूधानाय नमः ॐ यजमानप्रियाय नमः ॐ यजमानाय नमः ॐ यजमानात्मने नमः ॐ यजमानाद्यष्टमूर्तये नमः ॐ यजमानाति अष्टमूर्तिव्यञ्जिताय नमः ॐ यजमानोद्यदसदुक्षशिक्षणाय नमः ॐ यज्वने नमः ॐ यज्वमयाय नमः ॐ यज्वस्तुताय नमः जाय नमः ॐ यजनमयाय नमः ॐ यजुर्मूर्तये नमः ॐ यजुर्मयाय नमः ॐ यजुर्पाधा भुजाय नमः ॐ यजुर्वेधाप्रियाय नमः ॐ यजुरादिचतुर्वेधातुरङ्गाय नमः ॐ यजुषे नमः ॐ यजुर्वेधाय नमः ॐ यजुर्षां सदरुद्रियाय नमः यजुर्वेधामन्त्रजनकपश्चिमवधनाय नमः ॐ याजकाय नमः ॐ याजिने नमः ॐ युज्यमानाय नमः ॐ योज्याय नमः ॐ यज्ञमयाय नमः ॐ यज्ञवाटीविनाशिने नमः ॐ यज्ञाग्ने नमः ॐ यज्ञभागविते नमः यज्ञपतये नमः ॐ यज्ञकर्मस्वरूपिणे नमः ॐ यज्ञवाहनाय नमः ॐ यज्ञपुरुषरूपिणे नमः ॐ यज्ञसमाहिताय नमः ॐ यज्ञपुरुषाय नमः ॐ यज्ञनायकाय नमः यज्ञकायाय नमः ॐ यज्ञकर्त्रे नमः ॐ यज्ञहर्त्रे नमः ॐ यज्ञभर्त्रे नमः ॐ यज्ञभोक्त्रे नमः ॐ यज्ञगोप्त्रे नमः ॐ यज्ञविघ्नविनाशनाय नमः ॐ यज्ञकर्मफलाध्यक्षाय नमः ॐ यज्ञमूर्तये नमः ॐ यज्ञगम्याय नमः ॐ यज्ञफलदाय नमः ॐ यज्ञफलाय नमः ॐ यज्ञनाशकाय नमः ॐ यज्ञप्रियाय नमः यज्ञरूपाय नमः ॐ यज्ञसाराय नमः ॐ यज्ञपारगाय नमः ॐ यज्ञपरायणाय नमः ॐ यज्ञधर्मतपोयोगजभताय नमः ं यज्ञपूज्याय नमः ॐ यज्ञभुजे नमः ॐ यज्ञगुह्याय नमः ॐ यज्ञसाधकाय नमः ॐ यज्ञनाथाय नमः ॐ यज्ञलिङ्गाय नमः ॐ यज्ञाधिपतये नमः ॐ यज्ञांघाय नमः ॐ यज्ञां गरूपिणे नमः ॐ यज्ञान्ताय नमः ॐ यज्ञाय नमः ॐ यज्ञान्तकृते नमः ॐ यज्ञावताराय नमः ॐ यज्ञानाम्पतये नमः ॐ याज्ञवल्क्यप्रियाय नमः ॐ याज्ञिकाय नमः ॐ यथये नमः ॐ यतिवेद्याय नमः ॐ यतिने नमः ॐ यतिनाम् मुक्तये नमः ॐ यतिप्रियाय नमः ॐ यतिवर्याय नमः ॐ यतिभानाम्बुजनिशान्ताय नमः ॐ यतिधर्मपरायणाय नमः ॐ यदिशाध्याय नमः ॐ यत्नाध्याय नमः ॐ यत् सर्वं यत् सर्वं यत् नमो नमः यदेन्द्रियाय नमः ॐ यथोवाचो युजर्षेयविषयज्ञाय नमः ॐ यत्नरक्षितपुत्रस्त्रीतपितृमात्रे नमः ॐ यत्नाय नमः ॐ यन्त्रे नमः ॐ यन्त्रनामलिङ्गात्मने नमः ॐ यन्त्ररूपप्रपञ्चैकसूत्राय नमः ॐ यन्त्रात्मने नमः ॐ यन्त्राणां धनुषे नमः ॐ यन्त्रेशाय नमः ॐ यन्त्रार्हाधनतत् पराय नमः ॐ यन्त्रसाधकाय नमः ॐ यन्त्रमयाय नमः ॐ यन्त्रासनाय नमः ॐ यन्त्रमन्त्रस्वरूपकाय नमः ॐ यथा यथाधिरहिताय नमः ॐ यत्र फलप्रदाय नमः ॐ यत्राप्रियाय नमः यतुधानवरप्रथाय नमः ॐ यथार्थरूपाय नमः ॐ यथार्थाय नमः ॐ यथा रुचिजगद्धायेय विग्रहाय नमः यथार्थपरमेश्वराय नमः ॐ यथेष्टफलदाय नमः ॐ यथोक्तफलदाय नमः ॐ यथेच्छं विषयासक्तु दुष्प्रभाय नमः ॐ यथेष्टफलदायकाय नमः ॐ यदुपतये नमः ॐ यदुश्रेष्ठप्रियाय नमः ॐ यदृश्चा लाभसन्तुष्टाय नमः ॐ यदृश्चाहा लाभसन्तुष्ट ष्ठानां दवाय नमः ॐ यदुनातसखावात्तनिजास्त्राय नमः ॐ यधोनितये नमः ॐ यादीजनकजन्तुसंकृष्टात्मने नमः ॐ याधवानां प्रियाय नमः ॐ याधापतये नमः ॐ याद्यं गत्रादु पकधारिणे नमः ॐ यादवानां शिरोरत्नाय नमः ॐ युतिस्तृविनाशनाय नमः ॐ युद्धकौशलाय नमः ॐ युद्धमध्यस्थिताय नमः ॐ युद्धामर्मज्ञाय नमः ॐ युधिने नमः ॐ योद्रे नमः ॐ योधा योधनतत्पराय नमः ॐ यानप्रियाय नमः ॐ यानसेव्याय नमः यूने नमः ॐ योनये नमः ॐ योनिदोषविवर्जिताय नमः ॐ योनिष्ठाय नमः ॐ योनिलिङ्गार्धधारिणे नमः ॐ यूपाय नमः ॐ यूपाकृतये नमः ॐनाथाय नमः ॐ यूपश्रयाय नमः ॐ यं नमः ॐ यमाय नमः ॐ यमारये नमः ॐ यमताण्डकाय नमः ॐ यमनिषूधनाय नमः ॐ यमप्राणायामवेद्याय नमः ॐ यम संयम संयुताय नमः ॐ यमशीताहराय नमः ॐ यमवंशसमुद्भवाय नमः ॐ यमाध्यष्ठां गयोगस्तसंगमाय नमः ॐ यमां गधूलधावां द्रिकिरणाय नमः ॐ यमुना वीचिकानीलभ्रूलताय नमः ॐ यमादियोगनिरथाय नमः ॐ यमप्राणनिर्वापणाय नमः ॐ यमिने नमः ॐ यमराड्मक्षकटाक्षधिकृते नमः ॐ यमरूपाय नमः ॐ यमभातानिवर्तकाय नमः ॐ यमुनाप्रियाय नमः ॐ यमसामकाय नमः ॐ यमजले साधनेश नमस्कृताय नमः ॐ यमान्तकाय नमः यमार्चिताय नमः ॐ यमादिदीगीशपूजिताय नमः ॐ यमभायाय नमः ॐ यमग्नाय नमः ॐ यमनाशनाय नमः ॐ यमभटभूतच भूभेतालाय नमः ॐ यमिने नमः ॐ यमिनीनायरूपिणे नमः ॐ यां नमः ॐ यां धाण्डपासनि कृन्धनाय नमः ॐ यमिनीपतिसंसेव्याय नमः ॐ यामिनी चरदार्पद्मे नमः ॐ यामरूपाय नमः ॐ यामपूजनष्टाय नमः ॐ याय नमः ॐ यायि नमः ॐ यलकायदगाण्डीवप्रहाराय नमः ॐ यवनबुण्ड्रात्रसगथैतेयनाशकाय नमः ॐ यावान्तप्रीतचेतसे नमः ॐ यवाक्षदार्चनप्रियाय नमः ॐ यवौ धनप्रीतचित्ताय नमः ॐ यविधाय नमः ॐ यवीयसे नमः चिह्हितपादुकाय नमः ॐ युवतीसहिताय नमः ॐ युवतीविलासतरुणोत्तरवधनाय नमः ॐ यौवनगर्विताय नमः ॐ ययसेमः ॐ यशप्रदाय नमः ॐ यशस्विने नमः ॐ यशोवते नमः ॐ यशोनिधये नमः ॐ यशोधराय नमः ॐ यशोयुथाय नमः ॐ यशस्कराय नमः ॐ यशस्य नीतये नमः ॐ यशस्य क्तिमुक्त्यैककारणाय नमः ॐ यःसप्स्येति मन्त्रोक्तधेवताय नमः ॐ यष्टिधराय नमः ॐ यष्ट्रे नमः ॐ याक्षरवामपादाय नमः यष्टुफलदाय नमः ॐ योषा नमः ॐ योषित्प्रियाय नमः ॐ योषित्करतलस्पर्शप्रभावज्ञाय नमः ॐ योषाधीकृतविग्रहाय नमः ॐ योषित्सङ्गविवर्जिताय नमः ॐ यस्मै नमः ॐ यस्मै नमः श्रुतिप्रोक्तनमस्याय नमः ॐ यक्षेसाय नमः ॐ यक्षेश्वराय नमः ॐ यक्षससकाय नमः ॐ यक्षाय नमः ॐ यक्षरक्षाकराय नमः यक्षरूपाय नमः ॐ यक्ष किन्नरसेविताय नमः ॐ यक्षप्रियाय नमः ॐ यक्षनायकदुष्प्राभवरधाय नमः ॐ यक्षराजसखाय नमः ॐ यक्षपूजिताय नमः ॐ यक्षराक्षससंसेव्याय नमः ॐ यक्षाणाम् पतये नमः ॐ यक्षसेव्याय नमः ॐ यक्षगानप्रियाय नमः ॐ यक्षकन्याहृदिस्थाय नमः ॐ यक्षभोगप्रधायिने नमः ॐ यक्षकिन्नरगन्धर्वैसेविताय नमः ॐ यक्षश्रेष्ठाय नमः ॐ यक्षस्वरूपाय नमः ॐ यक्षर्चिताय नमः ॐ रेफस्य अग्निर्देवता रौद्रकर्मसाधने विनियोग नमः ल्याम्भरप्रियाय नमः ॐ रक्तबलिप्रियाय नमः ॐ रक्तपिङ्गलनेत्राय नमः ॐ रक्ताय नमः ॐ रक्तवर्णाय नमः ॐ रक्तवस्त्राय नमः ॐ रक्तगन्धाय नमः ॐ रक्तसूत्रधराय नमः ॐ रक्तपुष्पप्रियाय नमः रक्तध्वजपातकाय नमः ॐ रक्तव्यक् रक्तस्वरूपाय नमः ॐ रक्तस्रगनुलेपिने नमः ॐ रक्तमाध्याङ्गधारिणे नमः ॐ रक्तमालाविचित्राय नमः ॐ रक्तार्धवाससे नमः ॐ रक्ताम्बरधराय नमः ॐ रक्ताङ्गाय नमः ॐ राकेशाय नमः ॐ राखिनीप्रियाय नमः ॐ राखेन्दुवधनाय नमः ॐ राकेन्दुसंहासनकाय नमः ॐग्माङ्गता परिष्कृताय नमः ॐग्मां गतास्तुताय नमः ॐग्मवर्णाय नमः ॐक्मिणी पदिपूजिताय नमः ॐक्मिणी फलदाय नमः ॐ रेकारादाङ्कसम्पर्कजलन्धरभिते नमः ॐ रं य नमः ॐ राघधाय नमः ॐ राघविदे नमः ॐ रागिणे नमः ॐ रागहेतवे नमः ॐ राघवते नमः ॐ रागपल्लवितस्थाणवे नमः ॐ रोगसाय नमः ॐ रोगहर्त्रे नमः ॐ रोगसमनाय नमः ॐ रघुनाथाय नमः ॐ रघुवंशप्रवर्तकाय नमः ॐ रघुस्तुतपदाद्वन्द्वाय नमः रघुपूज्याय नमः ॐ रघुनाथवंशप्रियाय नमः ॐचिरां गदाय नमः ॐचिरां गाय नमः ॐ रोचिष्णवे नमः ॐ रोचिशाम्पतये नमः ॐ रोचमानाय नमः ॐ रोचनाय नमः ॐ रजसे नमः ॐ रजोगुणदूराय नमः जस्याय नमः ॐ रजोगुणविनाशकृते नमः ॐ रजतप्रभाय नमः ॐ रजनी सकलाधराय नमः ॐ रजनी सकलावतंसाय नमः ॐ रजदाचलशृङ्गाग्रनिलयाय नमः ॐ रजकाय नमः ॐ रजः नमः ॐ रजनाय नमः ॐ रजतसभापतये नमः जस्तामससात्विकगुणेशाय नमः ॐ रजधाद्रिश्रिगनिकेतनाय नमः ॐ रजनीचराय नमः ॐ रचत भूधरवासाय नमः ॐ रजत शैलशिखरनिवासवते नमः ॐ रजत शैलनिशान्ताय नमः ॐ रजोत्त्वलिङ्गाय नमः ॐ रजोनिहन्त्रे नमः ॐ राज्ञे नमः ॐ राजराजादिमित्राय नमः ॐ राजदाय नमः ॐ राज्यसुखप्रदाय नमः ॐ राजीवलोचनाय नमः ॐ राजमौलये नमः ॐ राजराजेश्वराय नमः ॐ राजराजप्रसन्नुताय नमः ॐ राजाकरसरोरुहाय नमः ॐ राजपूजिताय नमः ॐ राजवर्धनाय नमः ॐ राजीवपुष्पसङ्कासाय नमः राजीवाक्षाय नमः ॐ राजकन्यायुगानन्दासैव वृद्धमुते नमः ॐ राजमण्डलमध्यगाय नमः ॐ राजराजप्रियाय नमः ॐ राजराजाय नमः ॐ राजसूयहविर्भोक्त्रे नमः ॐ राजीवचरणाय नमः ॐ राजशेखराय नमः ॐ राजवस्यकराय नमः ॐ राजीवकुसुमप्रियाय नमः राजादिराजाय नमः ॐ राज्ञामदिगदाय नमः ॐ राजहंसाय नमः ॐ राजवृक्षाय नमः ॐ राजमान्याय नमः ॐ राजराजसखाय नमः ॐ राजोपचाराय नमः ॐणकिङ्किणिमेखलाय नमः ॐपण्डिताय नमः ॐप्रियाय नमः त्सुकाय नमः ॐसुराय नमः ॐ रे रे रे रे रेणुकावरदाय नमः ॐ रथये नमः ॐ रतिप्रार्थितमाङ्गल्यफलदाय नमः ॐ रतिस्तुताय नमः ॐ रतिमार्गकृते नमः ॐ रथप्रियाय नमः ॐ रत्नरञ्जितपादुकाय नमः ॐ रत्नकञ्चुकाय नमः त्नपीढस्थाय नमः ॐ रत्नपादुका प्रभाभिरामपादयुग्मकाय नमः ॐ रत्नप्रजाध्येमसूत्रकटीतटाय नमः ॐ रत्नधाय नमः ॐ रत्नप्रभूताय नमः ॐ रत्नहारकाय नमः ॐ रत्नहारकटिसूत्राय नमः ॐ रत्नमन्दिरमध्यस्थाय नमः ॐ रत्नपूजापरायणाय नमः ॐ रत्नभूषणाय नमः ॐ रत्नकाञ्चनभूषणाय नमः ॐ रत्नमण्डपमध्यस्थाय नमः ॐ रत्न ग्रैवेयकुण्डलाय नमः ॐ रत्नढोलोत्सवप्रीताय नमः ॐ रत्नपूजनन् दुष्टाय नमः ॐ रत्नानुसरासनाय नमः ॐ रत्नानुनिदये नमः ॐ रत्नसन्दोकमञ्जीरगणपतसरोरुहाय नमः ॐ रत्नकङ्कणशोभट्याय नमः ॐ रत्नकङ्कणाय नमः त्नसिंहासनाश्रयाय नमः ॐ रत्नसिंहासस्थिताय नमः ॐ रत्नप्राजत्तेमसूत्राय नमः ॐ रत्नहारिणे नमः ॐ रत्नमौलये नमः ॐ रत्नकिरीटवथे नमः ॐ रत्नमालिने नमः ॐ रत्नेशाय नमः ॐ रत्नरोचिषे नमः ॐ रत्ननाभाय नमः ॐ रत्नप्राजत्कटीसूत्राय नमः ॐ रत्ननिर्मितकङ्कणाय नमः ॐ रत्नकुण्डलदीप्तास्याय नमः ॐ रत्नकुण्डलमण्डिताय नमः ॐ रत्नग्रैवेयभूषणाय नमः ॐ रत्नगर्भाय नमः ॐ रत्नगर्भाश्रयाय नमः ॐ रत्न मौतिकवैडूर्यकिरीटाय नमः ॐ रत्ननिर्मलविग्रहाय नमः ॐ रत्नाकराय नमः त्नाम् प्रभवे नमः ॐ रत्नाङ्गदाङ्गाय नमः ॐ रत्नाङ्गुलीयविलसत्करसागनव्यप्रभाय नमः ॐ रत्नाङ्गुलीयवलयाय नमः ॐ रत्नाभिषेकसन्तुष्टाय नमः ॐ रत्नाकरप्रियाय नमः ॐ रत्नाकरस्तुताय नमः ॐ रत्नाढ्य ॐ रत्नाभरणसम्भृताय नमः ॐ रत्नालङ्कृतसम्भिगिने नमः ॐ रत्नाम्बरधराय नमः ॐ रत्नाकरमध्यस्याय नमः ॐ रत्नद्वीपनिवासिने नमः ॐ रत्नप्राकारमध्यस्थाय नमः ॐ रत्नाङ्गाय नमः ॐ रत्नधायिने नमः ॐ रात्रिञ्चराय नमः ॐ रात्रिञ्चरप्रणापहारकाय नमः ओम रात्रिंचर घाध्यक्षा नम ओं रात्रिंचर सिताय नम थयोगिने नमः ॐ रथकाराय नमः ॐ रथपतये नमः ॐ रथखरेभ्यो नमः ॐ रथाय नमः ॐ रथारूढाय नमः ॐ रत्याय नमः ॐ रङ्गपाणये नमः ॐ रने नमः ॐ रथपथिभ्यो नमः थेभ्यो नमः ॐ रथोत्सवाय नमः ॐ रथोत्सवप्रियाय नमः ॐ रथेभ्यो नमः ॐ रुद्राय नमः ॐ रुद्ररूपाय नमः ॐद्रमन्यवे नमः ॐ रुधाते नमः ॐ रुद्रनीलाय नमः ॐ रुद्रभावाय नमः द्रकेलाय नमः ॐ रुद्रशान्त्यै नमः ॐद्रविश्रह्मातिजनकाय नमः ॐद्रमण्टलसेविताय नमः ॐद्रमन्त्रजपप्रीताय नमः ॐ रुद्रलोकप्रधायकाय नमः ॐ रुद्राक्षप्रियवत्सलाय नमः ॐ रुद्राक्षमालाभरणाय नमः ॐद्रात्मने नमः ॐ रुद्राध्याय जपप्रीताय नमः ्राणि प्राणनायकाय नमः ॐ रुद्राणि पूजनप्रीताय नमः ॐ रुद्राक्षमगुढोज्ज्वलाय नमः ॐ रुद्राक्षजपसुप्रीताय नमः ॐद्राणां पतये नमः ॐ रुद्राणां संकराय नमः ॐ रुद्रादि ्यास्वनाय नमः ॐ रुद्रात्मकतक्षिणवदनाय नमः ॐद्रात्मकहृदयाय नमः ॐ रौद्राय नमः ौद्ररणोत्साहाय नमः ॐ रौद्ररूपाय नमः ॐ रौद्रदृशे नमः ॐ राधा माधवसंसेव्याय नमः ॐ राधा माधववल्लभाय नमः ॐ रोधाय नमः ॐ रोदनाय नमः र्जिताय नमः ॐहीनाय नमः ॐवते नमः य नमः ॐ रिभुग्नाय नमः ॐ रे रे रे रे रेस्वरूपाय नमः ॐ रम्भीजबसन्तुष्टाय नमः ॐ रम्भातिकन्यकाराध्याय नमः ॐ रम्भाफलप्रियाय नमः ॐ रमणीयगुणाकराय नमः ॐ रम्यभक्तभृ धाङ्गपाणये नमः ॐ रम्यस्वरुधासिने नमः ॐ रम्यगुणकेलये नमः ्याय नमः ॐ रमावाणीसमाराध्याय नमः ॐ रमापतिस्तुताय नमः ॐ रमणीयाय नमः ॐ रमेशाय नमः ॐ रमोऽढ्याय नमः ॐ रामपूजिताय नमः ॐ रामपूज्याय नमः ॐ रामनाथाय नमः ॐ रामनानमकजीवाय नमः मचरणाय नमः ॐ रामप्रियाय नमः ॐ रामेश्वराय नमः ॐ रामाय नमः ॐ रामनन्दामयाय नमः ॐ रामार्चितपदद्वन्द्वाय नमः ॐ रामगाय नमः ॐ रयिधाय नमः ॐ गुरुचर्मपरिधानाय नमः ॐ गुरुहस्ताय नमः रुरुप्रियाय नमः ॐ रौरवाजिनसंवीताय नमः ॐ रवये नमः ॐ रविकोटिसङ्कासाय नमः ॐ रविलोचनाय नमः ॐ रविमण्डलमध्यस्याय नमः ॐ रविकोटिसमप्रभाय नमः ॐ रविचन्द्राग्निनयनाय नमः ॐ रविनेत्राय नमः ॐ रविशिखिशिनेत्राय नमः खरालचक्राय नमः ॐ रव्यात्मने नमः ॐ रव्यधिग्रहसंस्तुताय नमः रावणार्चितविग्रहाय नमः ॐ रावणार्चिताय नमः ॐ रावणधर्पविनाशनलिङ्गाय नमः ॐ रावणा हृदानन्दाय नमः ॐ रेवानधीतीरवासाय नमः ॐ राशीकृतजगत्रयाय नमः ये नमः ॐ रश्मियाय नमः ॐ रोषिणे नमः ॐ रसज्ञाय नमः ॐ रसप्रियाय नमः ॐ रसनारहिताय नमः ॐ रसगन्धाय नमः ॐ रसभुजाय नमः ॐ रसरथाय नमः ॐ रसाश्रिताय नमः य नमः ॐ रसालसालाहलत्पिकनिनधमदुरवाग्जालाय नमः सानां पतये नमः ॐ रसाय नमः ॐ रसात्मकाय नमः ॐ रसादरेन्द्रशापसिञ्चिनी करुतानिवासिने नमः ॐ रासभाय नमः ॐ रोहिणीपथिवल्लभाय नमः ॐ रोहिताय नमः ॐ रहस्य े नमः ॐ रंहसाय नमः ॐ रघस्य लिङ्गाय नमः ॐ राघवे नमः ॐ रक्षाभूषाय नमः ॐ रक्षसे नमः ॐ रक्षिणे नमः ॐ रक्षोधिपतये नमः ॐ रक्षोग्नाय नमः ॐ रक्षो गणार्तिकृते नमः ॐ रक्षाग्ने नमः ॐ राक्षसवरप्रदाय नमः ॐ रक्षाकराय नमः ॐ रक्षाधराय नमः ॐ राक्षसारये नमः ॐ राक्षसान्तकृते नमः ॐ रुक्षरेतसे नमः ॐ रुक्षाय नमः ॐ लकारस्य शक्तिर्देवतालक्ष्मीवक्ष्यार्थे विनियोग नमः ॐ लोकपालाय नमः ॐ लोकविश्रुताय नमः ॐ लोकपालसमर्चिताय नमः लोकचारिणे नमः ॐ लोककर्त्रे नमः ॐ लोकसाक्षिणे नमः ॐ लोकहिताय नमः ॐ लोकरक्षापरायणाय नमः ॐ लोकनेत्रे नमः ॐ लोककृते नमः ॐ लोकभृते नमः ॐ लोककाराय नमः ॐ लोकभावनाय नमः ॐ लोकवर्णोत्तमोत्तमाय नमः ॐ लोकसारङ्गाय नमः ॐ लोकशल्यकृते नमः ॐ लोकगूढाय नमः ॐ लोकनादाय नमः ॐ लोकवन्द्याय नमः ॐ लोकमयाय नमः ॐ लोकशोकविनाशकाय नमः ॐ लोकचूडारत्नाय नमः ॐ लोकत्रयविधात्रे नमः लोकत्रयीसनाथाय नमः ॐ लोकदात्रे नमः ॐ लोकध्वजाय नमः ॐ लोकप्रभवे नमः ॐ लोकबन्धवे नमः ॐ लोकस्वामिने नमः ॐ लोकचूटामणये नमः ॐ लोकत्रयाश्रिताय नमः ॐ लोकत्रयश्रयाय नमः ॐ लोकसंकराय नमः ॐ लोकज्ञाय नमः ॐ लोकसम्मोहनाय नमः ॐ लोकवशङ्कराय नमः ॐ लोकानां पतये नमः ॐ लोकाधिष्ठानाय नमः ॐ लोकाध्यक्षाय नमः ॐ लोकाय नमः ॐ लोकानुग्रहकारिणे नमः ॐ लोकानुग्रहकागस्य तपप्रीतात्मने नमः लोकायतिकानां स्वभावमयविग्रहाय नमः ॐ लोभाधिपाय नमः ॐ लोकानामभिरामाय नमः ॐ लोकात्मने नमः ॐ लोकान्तकृते नमः ॐ लोकाभिरामाय नमः ॐ लोकाक्षिणे नमः ॐ लोकानां नमः लोकानामीश्वराय नमः ॐ लोकादिमर्धनाय नमः ॐ लोकेशाय नमः ॐ लोकेशस्तुताय नमः ॐ लोकोत्तरस्फुटालोकाय नमः ॐ लिकुचपाणये नमः ॐ लं कटिसूत्राय नमः ॐ लोकाधिपाय नमः ॐ लेखसमर्चिताय नमः ॐ लेकचूटालचरणाय नमः ॐ लेककोटीरमालामगरन्तासिक्तपादाय नमः ॐ लेघस्वरूपाय नमः ॐ लेखगकेशाय नमः लग्नाय नमः ॐ लिस्ताय नमः ॐ लिङ्गत्रयरहिताय नमः ॐ लिमयाय नमः ॐ लिमूर्तये नमः ॐ लिरूपिणे नमः ॐ लिङ्गिने नमः ॐ लिङ्गाध्यक्षाय नमः ॐ लिङ्गाध्यस्तुदिनिगमाय नमः ॐ लिङ्गाद्विग्रहाय नमः ॐ लिङ्गाय नमः ॐ लिङ्गालिङ्गात्मविग्रहाय नमः ॐ लिङ्गोभावादिपञ्चमूर्ति प्रतिपादकपूर्ववदनाय नमः ॐ लिङ्गहस्ताय नमः ॐ लिङ्गफलप्रियाय नमः ॐ लिङ्गबीजाकृतये नमः ॐ लघुस्थूलस्वरूपिणे नमः ॐ लगिमसिद्धिधात्रे नमः ॐ लघुद्राक्षाफलप्रियाय नमः ॐ लुदाचिदालयत्वारवितानो य नमः ॐ लोप्याय नमः ॐ लतामयाय नमः ॐ लता पूजापराय नमः ॐ लम्बनाय नमः ॐ लम्बितोष्टाय नमः ॐ लम्बिकायोगमार्गकृते नमः ॐ लम्बिकामार्गनिरताय नमः ॐ लम्भोदराय नमः ॐ लम्भो उदरशरीरिणे नमः ॐ लब्धदीक्षाय नमः ॐ लब्धसिद्धाय नमः ॐ लब्धाय नमः ॐ लाभप्रवर्तकाय नमः ॐ लाभात्मने नमः ॐ लाभकृते नमः ॐ लाभदाय नमः ॐ लोभिने नमः ॐ लड्डुकप्रियाय नमः ॐ लयाय नमः ॐ लयकराय नमः ॐ लयवर्जिताय नमः ॐ लिताय नमः ॐ लिता नमः ॐ लितानाथाय नमः ॐ ललितमूर्तये नमः ॐ ललितागमपौलाय नमः ॐ ललाटाक्षाय नमः ॐ ललाटशक्रुज्ज्वलदानज्ञजयस्फुलिङ्गया निवीतपञ्चशायकाय नमः ॐ ललाटनेत्रानलदाह्ममानमाराय नमः ॐ ललाटचन्द्रसन्निभाय नमः ॐ लां लीं नमः लीलावित्कम्पितवपुषे नमः ॐ लीलया विश्वसंहारसृष्टिस्थितिभिधायकाय नमः ॐ लीलाविग्रहाय नमः ॐ लीलानाम् प्रभवे नमः ॐ लीला वैचित्यघोविधाय नमः ॐ लीलिहानाय नमः ॐ लोलाक्षीनायकाय नमः ॐ लोलाय नमः ॐ लं लकुलीशाय नमः ॐ लवाय नमः ॐ लवणाय नमः ॐ लव रेफकालाङ्काय नमः ॐ लावण्यरासये नमः ॐ लावण्यजलतये नमः ॐ लावण्याप्तिसमुद्भूतपूर्णेन्दुप्रतिमाननाय नमः लवणाकराय नमः ॐ लवणाकरपूजिताय नमः ॐ लवणासमर्चिताय नमः ॐ लविप्रपाणये नमः ॐ लवङ्गप्रियाय नमः ॐ लवसेविताय नमः ॐ लवकम्बलधारिणे नमः ॐ लास्यप्रियाय नमः ॐ लास्यपराय नमः ॐ लास्य सुन्दराय नमः ॐ लास्यलालसाय नमः ॐ लसन्मणिक्यगगाय नमः ॐ लोहिताक्षाय नमः ॐ लोहितग्रीवाय नमः ॐ लोहिताय नमः ॐ लक्षणेसाय नमः ॐ लक्षधाय नमः ॐ लक्षलक्षणाय नमः ॐ लक्षलक्षणयोग्याय नमः ॐ लक्षमन्त्रजपप्रियाय नमः ॐ लक्षकोटशर्भुधान्तकाय नमः ॐ लक्षणलक्षिताय नमः ॐ लक्ष्याय नमः ॐ लक्ष्म्यै नमः ॐ लक्ष्मीवते नमः ॐ लक्ष्मीपतये नमः ॐ लक्ष्मीसाय नमः ॐ लक्ष्मीनाथप्रियाय नमः ॐ लक्षारुणेक्षणाय नमः ॐ लाक्षणिकाय नमः ॐ वकारस्य वरुणो देवताविषनिर्हरणार्थे विनियोग नमः वकाराय नमः ॐ वकाररूपाय नमः ॐ वक्त्रचतुष्टायाय नमः ॐ वक्त्रपञ्चकाय नमः ॐ वकुळाय नमः ॐ वक्त्रतुण्टार्चिताय नमः ॐ वक्रकेशाय नमः ॐ वक्रदुण्डप्रसादिने नमः ॐ व्यक्ताव्यक्ताय नमः ॐ व्यक्तराय नमः ॐ व्यक्तरूपाय नमः ॐ व्यक्ताव्यक्ततमाय नमः ॐ व्यक्ताव्यक्तात्मने नमः ॐ व्यक्ताव्यक्तगुणेतराय नमः पतये नमः ॐ वाक्स्वरूपाय नमः ॐ वाक्प्रियाय नमः ॐ वाक्याय नमः ॐ वाक्यार्थस्वरूपिणे नमः ॐ वाक्यज्ञाय नमः ॐ व्याकृताय नमः ॐ व्याकृतये नमः ॐ व्यापतित्वप्रकाशिने नमः ॐ विघटाट्टहासविस्फारितब्रह्माण्डमण्डलाय नमः ॐ विकारिणे नमः ॐ विकाररहिताय नमः ॐ विक्रान्ताय नमः ॐ विक्रमाय नमः ॐ विक्रमिणे नमः ॐ विकुर्वाणाय नमः ॐ विकृताय नमः ॐ विकर्त्रे नमः ॐ विकर्मिणे नमः ॐ विक्रमोत्तमाय नमः विक्लभाय नमः ॐ विकृतस्वरूपाय नमः ॐ विकरालोर्ध्वकेशाय नमः ॐ विकेशाय नमः ॐ विकटाय नमः ॐ विकल्पाय नमः ॐ विकृतवेशाय नमः ॐ विकराय नमः ॐ विकृताङ्गाय नमः ॐ वैकुण्ठदर्शिणे नमः ॐ वैकुण्ठनाथविलसत्सायकाय नमः ॐ वैकुण्ठरेतसे नमः ॐ वैकुण्ठवल्लभाय नमः ॐ वैकुण्ठविधिसन्नुताय नमः ॐ व्याख्यातदेवाय नमः ॐ व्याख्यानुपीठस्थाय नमः ॐ व्याख्यामुत् लसद्वागवे नमः ॐ व्याख्यात्रे नमः ॐ विख्याधाय नमः ॐ वैकानसमकारम्भाय नमः ै कानाय नमः ॐ वै गानासाय नमः ॐ वागीसाय नमः ॐ वाग्विभूतिदायकात्मने नमः ॐ वाग्ज्ञानमात्रसन्दष्टत्वार्ताय नमः ॐ वाग्देवी श्रीची सेव्य वामाङ्गाय नमः ॐ वागीसविश्वुरसेवितपादपीठाय नमः गीश्वरेश्वराय नमः ॐ वाग्विशुद्धाय नमः ॐ वाग्विधाम्बराय नमः ॐ वाग्वृषाय नमः ॐ वाग्मनेश्वराय नमः ॐ वागादीक्षाय नमः ॐ वाङ्मयाय नमः ॐ वाग्मिने नमः ॐ वागीन्द्राय नमः वों व्यग्रनाशनाय नमः ॐ व्यग्राय नमः ॐ विगतकल्मषाय नमः ॐ विगतरोषाय नमः ॐ विगधज्वराय नमः ॐ विगदस्पृाय नमः ॐ वेगदर्शिने नमः ॐ वेगवते नमः ॐ वेगवतीरवासाय नमः ॐ वेगवती वरदाय नमः ॐ वेघापघासमर्चिताय नमः ॐ व्याघ्राय नमः ॐ व्याघ्रघाय नमः ॐ व्याघ्रचर्मासनाय नमः ्याघ्रचर्मधराय नमः ॐ व्याघ्रचर्मपरिधानाय नमः ॐ व्याघ्रचर्मोत्तरीयाय नमः ॐ व्याघ्रचर्मां भरपरीताय नमः ॐ व्याघ्रमां भरधराय नमः ॐ व्याघ्राजिनाम्बरधराय नमः ॐ व्याघ्रचर्मसमेताय नमः ॐ व्याघ्रचर्माम्बराय नमः ॐ व्याघ्रपादावरधाय नमः ॐ विघ्नेशाय नमः ॐ विघ्नेश्वराय नमः विघ्नकर्त्रे नमः ॐ विघ्नहर्त्रे नमः ॐ विघ्नेशविधिमार्ताण्डचन्द्रेन्द्रोभेन्द्रवन्दिताय नमः ॐ विघ्नेश्वरवरप्रदाय नमः ॐ विघ्नराजाय नमः ॐ विघ्ननाशकाय नमः ॐ वं चर्माम्बरधराय नमः ॐ वञ्चकाय नमः ॐ वञ्चते नमः चालकाय नमः ॐ वाचां सिद्धाय नमः ॐ वाचस्पतिसमर्चिताय नमः ॐ वाचस्पतये नमः ॐ वाचस्पत्याय नमः ॐ वाचातीतमनोतीतमहिताय नमः ॐ वाचामगोचराय नमः ॐ वाचस्पत्यप्रदायकाय नमः ॐ वाचा मनोतिधू य नमः ॐ वाच्यवाचकरूपाय ओम् ॐ वाच्यवाचकशक्त्यर्थाय नमः ॐ वाङ्मनोतीत वैभवाय नमः ङ्मयैकनिदये नमः ॐ विचक्षणाय नमः ॐ विचारविदेधे नमः ॐ विचित्रमायिने नमः ॐ विचित्रचरिताय नमः ॐ विचित्रमाल्यवसनाय नमः ॐ विचित्रताण्डवप्रियाय नमः ॐ विचित्राय नमः विचिन्वत्येभ्यो नमः ॐ विचित्रगतये नमः ॐ विचि प्रवेशाय नमः ॐ विचित्रशक्तये नमः ॐ विचित्राभरणाय नमः ॐ विचित्रमणिमूर्धे नमः ॐ वंशानुकलितानेकस्वरूपाय नमः ॐ वं चितार्थप्रधायिने नमः ॐ वां चितधानरीणाय नमः ॐ वां चितदायकाय नमः ॐ वज्रणे नमः ॐ वज्रजिह्वाय नमः ॐ वज्रहस्ताय नमः ॐ वज्रदेहाय नमः ॐ वज्रप्रियाय नमः ॐ वज्रधंष्ट्राय नमः ॐ वज्रनाखाय नमः ॐ वज्रधराय नमः ॐ वज्रसंहननाय नमः ॐ वज्रनिलयाय नमः वज्रशरीराय नमः ॐ वज्रनायकाय नमः ॐ वज्रहस्तप्रियाय नमः ॐ वज्रकीलतसौवर्णमुदृगाङ्गुलिसेविताय नमः ॐ वज्रवैडूर्यमाणिक्यनिष्कभासितवक्षसे नमः ॐ वज्रेशाय नमः ॐ वज्रभूषिताय नमः ॐ वज्रात्यस्त्रपरिवाराय नमः ॐ वज्रात्मने नमः ॐ वज्रेशाय नमः ्याजमर्धानाय नमः ॐ व्याजसमर्थनाय नमः ॐ वाजपेयादिसकलफलदाय नमः ॐ वाजसनाय नमः ॐमजठराय नमः ॐ विजातीयरहिताय नमः ॐ विजृम्भिताय नमः ॐ विज्ञाय नमः ॐ विज्ञेयाय नमः ॐ विज्ञानगम्याय ॐ विज्ञानदेहाय नमः ॐ विज्ञानगणरूपिणे नमः ॐ विज्ञानमात्रात्मने नमः ॐ विज्ञानदेवाय नमः ॐ विज्ञाशुद्धचन्द्रमसे नमः ॐ विज्ञानमयाय नमः ॐ विजितात्मने नमः ॐ विजितधानवलोकाय नमः ॐ विजयावहाय नमः ॐ विजयाक्षाय नमः विजयाय नमः ॐ विजयिने नमः ॐ विजयकालविदे नमः ॐ विजयस्थिराय नमः ॐ विजयद्विजविज्ञानदेशिकाय नमः ॐ वटवे नमः ॐ वटुवेशाय नमः ॐ वटतरुमूलवासाय नमः ॐ वटमूलनिवासाय नमः ॐ वटमूलकृताश्रयाय नमः डुत्रयस्वरूपाय नमः ॐ वडद्रुमस्धाय नमः ॐ वटरूपाय नमः ॐ व्याधोरस्काय नमः ॐ वाणिजाय नमः ॐ वोड्रसाय नमः ॐ वाणिजाय नमः ॐ वाणी गीतयशसे नमः ॐ वाणीप्रियाय नमः ॐ वाणीसव्याय नमः ॐ वाणीसैकज्ञेयमूर्तमहात्म्याय नमः ॐ वीणानाधप्रमोदिताय नमः ॐ वीणाढ्याय नमः ॐ वीणाकर्णनतत्पराय नमः ॐ वीणानाधारताय नमः ॐ वीणावाक्याक्षसूत्रभृते नमः ॐ वीणाधारिणे नमः ॐ वीणा पुस्तकहस्ताब्जाय नमः ॐ वेणुतत्पराय नमः ॐ वैणिकाय नमः ॐ वैणविकाय नमः ॐ राधिपतये नमः ॐ व्रतिने नमः ॐ व्रतविदुषे नमः ॐ व्रतेश्वराय नमः ं व्रथाधाराय नमः ॐ व्रथाकराय नमः रों व्रतकुञ्जेष्ठाय नमः ॐ व्रतकृते नमः ॐ व्रतशीलाय नमः ॐ व्रतानाम् पतये नमः ॐ व्रतानाम् सत्याय नमः ॐ वत्सलाय नमः ॐ वत्सराय नमः ॐ वत्सिने नमः ॐ वृद्धिरहिताय नमः ॐ वृद्रारिपाभग्ने नमः ॐ वातूलागमवेद्याय नमः ॐ वातूलान्तमःसििकाय नमः ॐ वातूलागमनाढीप्रदेशाय नमः ॐ वात्याय नमः ॐ वाथाय नमः ॐ वातापितापनाय नमः ॐ वातरंहसे नमः ॐ राधेभ्यो नमः ॐ व्रातपदिभ्यो नमः ॐ वीतिहोत्राय नमः ॐ वीतराघाय नमः ॐ वीतसङ्कल्य नमः ॐ वीतभयाय नमः ॐ वीतिहोत्रालिकाय नमः ॐ वीततोषाय नमः ॐ वेत्रे नमः ॐ वधानविजिधेन्तुबिम्बाय नमः ॐ वदनत्रयशोभिताय नमः ॐ वदनत्रयसंयुताय नमः ॐ वधावधाय नमः ॐ वधान्यानामाध्याय नमः ॐ वादपरायणाय नमः त्यनृत्यप्रियाय नमः ॐ वादिने नमः ॐ व्यादिशाय नमः ॐ विद्यात्मयोगिनिलयाय नमः ॐ विद्रुमच्छवये नमः ॐ विद्वत्तमाय नमः ॐ विदुषे नमः ॐ विदम्भाय नमः ॐ विद्येसाय नमः ॐ विद्याराशये नमः विदक्ताय नमः